गर्गसंहित खण्डं फैव् मधुराखण्डम् अध्यायं सेवन्टीन् श्रीनारद उवाच श्रुत्वा श्रीकृष्णसन्देशं प्रसन्न गोपवल्लभाः अश्रुमुख्यो बाष्पखण्ड्य उचुरौपगविं नृप गोलोकवासिन्य उचुः विदेशं गतवान् कृष्णस्य कृत्वा पूर्वप्रियाञ्जनान् तदुपर्यलिखद्योगमहो निर्मोकदा बलं द्वारपालिकाऊचुः चकोरे घ्लौ पङ्कजोऽर्को भ्रमरे पङ्कजं यथा चादके च खनप्रीतिं न कदाचन शृङ्गारप्रकरा ऊचुः चन्द्रमित्रम् च कौरोऽस्ति सङ्ख्यो वह्निकणः सदा विधात्रा यद्विलिखितम् तन्यूनं न भवेदिह स योपाकारिकाुः व्याधोऽपि हत्वा हि मृगान् स्मरदि त्वरमातुरः पडाक्षैस्वप्रियान् हत्वा निर्मोही न स्मरेदहो पार्श्वदाख्या ऊचुः दुःखं नान्यो वेत्ति कदाचन यथा कण्डकविद्धाङ्गो विद्वान्वा विद्धकण्डकः वृन्दावनपालिका ऊचुः अनिमित्तं प्रेमसौख्यमनिमित्तो हि वेत्ति तद् सनिमित्तो न जानादिरसं कर्मेन्द्रियं यथा गोवर्धनवासिन्य प्रेम पुरन्ध्रीप्रेमकृद्यो वै सैरन्ध्री नायको भवद शैलौकोभिस्तु किं तस्य बहुना कथितेन किं कुञ्जविधायिका ऊचुः हा माधवी कुञ्जपुञ्जे गुञ्जन्मत्तमधुव्रते स्वदृक्लक्षीकृतो यो वै तस्येयं श्रूयदे कदा निकुञ्जवासिन्य ऊचुः वृन्दावने मत्तमिलिन्दपुञ्जे कलिन्दजादीरकदम्बपुञ्जे शनैश्चलन्दं सबलं सगोपं सगोधनं नन्द सुतं भजामः जाह्नवी यूध उवाच कदा तथा मत्समयो भविष्यति यथा पुरीन्ध्री यथा पुरन्ध्री समयः प्रदृश्यते शोकं परं मा कुरु दव्रजाङ्गनाः सदा न पराजयः यमुनायूथ उवाच विधा दुर्नदया किञ्चिद्युनप्रिय वियुनप्रियः भूतानि सकलान्येव क्रीडानानि यथार्भकः रमायूध उवाच कुब्जा पुराद्यर्जुसमानविग्रह दासित्विदानीं तु कुलीनदां गदा कुरूपिणीरूपवदी बभावः चतुर्दिनैर्दुन्दुभिनादकारिणी विरजायुधा उजुः सदा न कस्या विभुजा प्रियांसे सदा वसन्दो न सदा युवा स्यात् इन्द्रो न राज्यं गुरुदे सदा यं चतुर्दिनैर्मानमलङ्करोतु ललितायुध उवाज रामाभिषेकं विनिवार्य मन्थराचकारविघ्नं किल कोसले पुरे कुब्जैव सेयं मधुरा पुरे गदा कुब्जैव किं किं न करोदि गोपिकाः विशाखायूत उवाच गोचारणायानुजरैर्व्रजन्तं प्रबोधयन्तं स्वपुरं विरावैः मत्ते भयानं हिविडम्भयन्तम् श्रीनन्दसूनुं न हि विस्मरामः मायायूध उवाच सङ्कोचविधिषु पडे प्रगृह्य प्रसह्य दोर्भ्य हृदये निधाय अन्योन्यमाकर्षणहर्षभीतिर्बृहन्हरिं तं हि कदा नयामः अष्टसख्य ऊचुः वीक्ष्य नन्दसुतमङ्गसुन्दरं नेत्रमद्य न जगद्विपश्यदि नन्दराजतनये पुरीं स्थिते किं भविष्यति वदाशुनस्त्वरं षोडशसख्य उचुः वेणुनादमध्वरध्वनिं वने संनिष्यम सन्निश्यम्य कुसुमोऽशुवर्धनम् श्रोत्रयुग्ममिह न शृणो दिनो विश्वगीतमुदवा यशः परं द्वात्रिंशत्सख्य ऊचुः प्रीत्या स्वमित्रं लुब्धं धनैश्च द्विजमादरेण गुरुं प्रणामैरसिकं रसेन निर्मोहिनं केन वशीकरोति श्रुतिरूपाऊचुः यज्ञागरादिशुभवेषु परं ह्यदेर्हे दुःसिविद्य हे दुस्विद् अस्य विचरन्ति गुणाश्चयेन नै दद्विशन्ति महदिन्द्रियदेवसङ्घास्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिङ्गाः ऋषिरूपा नैवेश्यतुं प्रभुरयं बलिनां बलीयान् मायानशब्दद उद मायानशब्द उद नो विषयीकरोति तद्ब्रह्मपूर्णमृतं परमं प्रशान्तं शुद्धं परात् परतरं शरणं गदा स्मः देवाङ्गना ऊचुः अंशां आवेशपूर्णसहिताश्च परस्य यस्य सर्वाधय किल भवन्ति तमेव कृष्णम् पूर्णात् परम् तु परिपूर्णतमम् नदा स्मः यज्ञसीदौचुः श्रीमन्निकुञ्चलतिकाकुसुमाकरोऽयम् श्रीराधिकाहृदयकण्डविभूषणोऽयम् ब्रह्माण्डमण्डलमही परिपालकोऽयं रमा वैकुण्डनिवासिन्य ऊचुः योगोऽपिकासकलयूथमलं च कारवृन्दवनं च निजपादरजोभिरद्रिं यत् सर्वलोकविभाय बभूवभूमौ तम् भूरिलीलमुरगेन्द्रभुजं भजामः श्वेदद्वीपसखी जना यदा शिलीन्द्रं शिशुरश्रमो गजः स्वपुष्करेणैवज पुष्करम् गिरिं धृत्वा बभौ श्रीव्रजराजनन्दनः कृपा करोसौ न हि विस्मृद क्वजिद ऊर्ध्ववैकुण्डवासिन्य ऊचुः श्यामवर्णमयनेत्रे जगच्छ्यामम् विपश्यदः न द्वैतं दृश्यते यासां ताभिक् किं योगसेवनम् अजिदपदा श्रचुः स्नेहपाशो दृढच्छिन्नो न च्छिन्नो चित्वा तं मधुरां प्रागा नागपाशं यथा खगः लोकाचलवासिन्य ऊचुः कृष्णे लग्नं नेत्रयुग्मं धावद्दशदिशान्तरम् अहो न लग्नं कुत्रापि पद्मलग्नो यथा ह्यलिः श्रीसख्य उवाच कार्पण्येन यशो हन्धिकृधा गुणगुणोदयं धनानि व्यसनैर्लोकपडेनैव मित्रताम् मैथिला ऊचुः धनं दत्त्वा तनुं रक्ष तनुं दत्त्वा त्रपां व्यधाद धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि कौशला ऊचुः न कोऽपि जानादिवियोगजां दशां जीवं विना वक्तुमलं न सापि भूया दूरो बाणविभिन्नमारान् मा भूत् कदापि प्रियविप्रयोजनम् <igo> अयोध्यापुरवासिन्यवूचुः कृत्वा निराशां विनिधाय जगाम चाशां जगामचाशां मधुरा पुरस्य योगं च तस्योपरि चालिकन्नो निर्मोखिनां चित्तमहो विचित्रम् पुलन्दिकावूचुः जनं वरं कर्तुमतीव विह्वलां समागताम् शूर्पणखां पुरावने यः कारयामास विरूपिणीं बलात् सौमित्रिणा तेन वक्कृपा कथं सुतलवासिन्य ऊचुः बलिं सत्यपरं भूरिदं नीत्वा बलिं ह्यः कुपितो बबन्धः अहो कथं तस्य करोधिसेवनम् मायावडोर्वमनरूपधारिणः जालन्धर्य ऊचुः पुरादिकष्टं प्रकरदे पुरादिकष्टं प्रगदे सुरोत्तमे का याधवे भक्त वरे तदो ह्यहं भूत्वा नृसिंह कृतवान् सहायमहोपरा निष्ठुरदा प्रदृश्यते भूमि गोप्य ऊचुः अहोदि निर्मोहीजनस्य चित्रं परं चरित्रं गदितुं न योग्यं मुखेन चान्यद्धृदि भाव्यमन्यद्देवो न जानाति कुतो मनुष्यः इति श्रीगर्गसंहितायां मधुराखण्डे गोपीवाक्यं नाम सप्तदशोऽध्यायः ओम्